गरुडपुराणं ब्रह्मकाण्डं मोक्षकाण्डम् अध्यायम् ट्वेन्टि फोर् जैगीषैव्य उवाच कन्येशृणुत्वं वेङ्कडाख्याचलस्य स्मेराननां पुण्यमां रोहणे स्य श्रीगीताया पठनं चैव कुर्वन्नरोहणं कुरुते सर्वलोकः पदे पदे श्रीनिवासश्च देवस्त्वलं शलं प्रीयदे भक्तवर्गः तं प्रीणयन्मोक्षमायान्ति सर्वे करौ तुष्टे किमलभ्यं च कन्ये देशे ह्यः पुराणं शृणोति तदा कृदा सर्वतीर्थादियात्रा तदा दिवा प्रस्तुवन्तीहमार्गे सदा हरिं श्रीनिवासं गुरुं च सोपानानां महिमानं च श्रुत्वा शालग्रामं स्थापयित्वा च तत्र नमस्कृत्वा पुनरेवापि साधु सोपानानि त्वारु रोहाधसाध्वी ोपाननां वीन्द्र चारोहणेन त्ववैष्णवानां हरितोषो न चैव तेनैव तेषां साधनं भूय एव तमस्य अन्धे पादयितुं गगेन्द्र स्थले स्थले एव मे वाभिकार्यं जैगीषव्यं देवी कन्योवाच जैगीर्षव्यश्रीनिवासो हरिस्तु ब्रह्मादीनां दृश्यते श्रीनिवासः जैगीषव्यकृपया त्वम् वदस्व जैगीषव्यो ह्येव मुक्तो हरिं तु उवाच कन्यां सोमपुत्रीं सतीं च ब्रह्मादीनां दृश्यते श्रीनिवासः नन्दरूपोऽधिककान्तकान्तिमान् रुद्रादीनाम् दृश्यदे वेङ्कटेशः सूर्यलक्षाधिककान्तकान्तितो रुद्रादीनाम् दृश्यदे श्रीनिवासः सहस्रसूर्याधिककान्तिकान्तसव्यु युक्त मान् मान्योषाणाम् रमेश ऋष्यादीनां दृश्यते चन्द्रवच्च सन्मानुषाणामपरोक्षो हरिस्तु नक्षत्रवद् दृश्यते श्रीनिवासः सदा ऋषीणामपरोक्षो हरिस्तु ससूर्यवद् दृश्यते श्रीनिवास संसारिणां वेङ्कटेशखगेन्द्र सन्दोहवद्दृश्यते वै प्रकाशो मिथ्यावतां दृश्यते श्रीनिवासः पाषाणवन्नैल्यरूपप्रकाशिलामात्रे दृश्यते वै कलौ च नृणां सर्वेषां श्रीनिवासो हरिस्तु कलौ स्वरूपं श्रीनिवासस्य देवी न मानुषा प्रविजानन्ति सर्वे यथ कलौ तामसा राजसास्तु तत्सङ्घिनः सात्विकाः केचिदेव ह्यतो भक्ता दुर्लभा वै कलौ च के दृश्यन्ते भक्तवत्ते न चैव शक्ताः कुर्वन्ति यात्राम् च तदर्थमेव भक्तिज्ञानम् दुर्लभम् वैकलौ च भक्ता ये वैनविरक्त सदैव तेषाम् हरेर्दर्शनम् च भक्तस्वरूपम् तव वक्ष्ये खगेन्द्र योऽज्ञानपूर्णपरमे न च द्वेषैर्बन्धुरो भक्तियुक्तस्तव द्वेषाञ्चृणुवक्ष्ये च सम्यक् जीवाभिधाहरिणा प्राकृतेन स्वतन्त्रेण ह्यस्वतन्त्रस्य नित्यं ज्ञानानन्दैपरिपूर्णेहरौ च चिन्ता श्रीब्रह्मरुद्रादिदिवौकसां सदा तथा द्विजानाम् सम्मानायाश्च चिन्ता विष्णो सकाश्चात् ब्रह्मरुद्रादिकानां सदाधिक्यालोचनं द्वेष एव विष्णोर्भद्रे हस्तपादादिकानाम् भेदज्ञानम् द्वेष मा कुर्महान्तः अवताराणाच्छेदभेदादिकं च तदोच्यते मरणस्य विचिन्ता तद्भक्तानां द्वेषणं चाहुरार्यास्तद्वाक्यानां दूषणं द्वेष एव न च लोके कन्ये दृश्यन्ते न तु भक्ता जैगीशैव्यब्रूहिमेके च भक्ता भक्तिं कथं दर्शयामा सुरेदे तेषां करि श्रीनिवासो महात्मा त्रादा सदा भक्तवर्गे दयालुः जैगीशैव्यस्त्वेव मुक्तो महात्मा उवाच कन्यां संस्मरन् भक्तवर्यः जैगीषैव्य उवाच प्रह्लादाद्य प्रह्लादाद्या श्रीनिवासस्य भक्ता कृत्वा नृसिंहे चोत्तमान् भक्तिमेव अवापसाम्राज्यमनुत्तमम् च ज्ञानम् नृसिंहात् समवाप पराशरश्रीनिवासस्य भक्तो भक्तिम् कृत्वा व्यासरूपम् हरिं च तेन ज्ञानतत्त्वम् ह्यवाप्य जगाममोक्षम् भक्ति संवर्धितात्मा यो नारदशिनिवासस्य भक्तो भक्तिम् कृत्वा गर्भ वासेहरौ च तया भक्त्या ब्रह्मपुत्रत्वमापज्ञानप्राप्त्या तेन मुक्तिम् जगाम योह्यं परीष्य श्रीनिवासस्य भक्तकृत्वा भक्तिं परदेव हरौ च जत्वा ज्ञानं प्राप्य दुर्वासकश्चाप्य वापमोक्षं तेन संवर्धितात्मा मुचुकुन्दो वै श्रीनिवासस्य भक्तो वैराग्यदो भक्तिदार्ढ्यं च कृत्वा तत्त्वज्ञानं प्राप्य विष्णोर्महात्मा ह्यवापमोक्षं तेन संवर्धितात्मा स पुण्ठरी कश्विवासस्य भक्त पित्रादिष्ठो विष्णुभक्तिं च कृत्वा हरिप्रसादाज्ञानमनुत्तमम् शाव्यवापमोक्षम् भक्तिसंवर्धितात्मा ब्रह्मा च वायुश्च सरस्वती च ज्ञातव्या सर्वे ऋजुयोगिनश्च अच्छिन्नभक्ताश्च सदा मुरारेर्नकाम्यरक्तता शुद्धरूपाहिते च गिरीश नागेशखगेशसंज्ञा देवा शुक्रारौ गुरुचन्द्रेन्दुसूर्याः जलेशोऽग्निर्मनुधर्मकुबेरविघ्नेशना सत्यमरुद्गणाश्च पर्जन्यमित्रादय एव सर्वे सदा ह्येदे श्रीनिवासस्य भक्ताः विश्वामित्रो भृगुरवश्च पुत्सो मरीचिरत्रिपुलः क्रतुश्च शक्तिर्वसिष्ठो सौदमीयो गुलस्त्यो भारद्वाज श्रीनिवासस्य भक्ताः मान्धा नकुशौम्बरीशसगरौ राजा पृधुर्हैह यो इक्ष्वा गुर्भरतो ययादिसुदलौ धर्मो विकुक्षिस्तधा उत्थानश्च बिभीषणो दशरथोह्यदे महाज्ञानिनः श्रीमद्वेङ्कटनायकस्य च गुरोर्भक्ता सदा संस्मृदाः भागीरथी समुद्रश्च यमुना च सरस्वती गोदावरीनर्मदा च कृष्णाभीमरधी तदा सरयू कावेरी फगु कंडकी कपिलाेकता सन्दी चात्रि अभिप्रा त्र वक्ष्य शृणु कन्े मै सदी यवर्ते कदा विष्णो महात्म वर्दे वैष्णव यर्थबोधका तत्रैव भक्ता सर्वेऽपि सन्धि विष्णोस्तथैव च ये देवयात्रां परमात्मचिन्तया कुर्वन्ति देहरिभक्ताश्च च नान्ये यतोकरौ परमे वैष्णवानां सर्वं निष्ठा मेऽधिकृत्यं भगेन्द्र शशाचलं समासाध्यक्ष्यन्नवस्त्राधिभूषणम् योन न दद्यादभक्तः स तद को नु परपशुः भक्ता हरे श्रीनिवासाचले गङ्गादिरूपेण च तत्र तत्र तिष्ठन्ति सेवार्थ मुरुक्रमस्य तेषाम् पूजा नैव च देवी अभिप्रायं तत्र वक्ष्ये शृणुत्वम् तत्र स्थले वस्त्रगन्धादिदुपैः पुराणोक्ता अभिभेदेन पूज्य दृष्ट्वा तान् वन्दयेत् प्राज्ञ एव सद्ब्राह्मणान् वन्दयेत् पादमूले हस्तौ च दौ सम्पुडीकृत्य देवी साष्टाङ्गरूपं वन्दनं चैव विष्णो कुर्यात् तदा गुरवे विष्णु बुद्ध्या गङ्गादीनां वन्दनं कार्यमेव साष्टाङ्गं वै तुलसीनां तथैव अश्वनां नमनं कार्यमेव गवादीनां नमनं मानसेन पूजा सदा देवदेवस्य विष्णो कार्या भक्त्या वैष्णवैरेव नान्यः ये नाम का ज्ञानवन्तः सुभक्ता सदैव कार्या विष्णुपूजा जगन्ये ये नाम का ज्ञानवन्तस्सु भक्वता सदैवं कार्या विष्णुपूजा च कन्ये ये नाम का विष्णुभक्ता सदैव पूजा विष्णोर्नैव कार्यात्र देवी मो काद्यो वै पूजये देवदेवं महाधर्माद्यादिचान्धं तमो वै ब्रह्मादिम् नामानि हरेर्हि देवीं विष्णोः स्वनामानि ददौ दिवौकसाम् नादाीरकेशवादीनि कन्ये स्वतं पुरं प्रविहायैव राजा एवं मयोक्तं कन्यके सर्वमे ददेतत्परं सम्यगारोहणीयं गोविन्दनारायणमाधवेदी यूयं मया सर्वमाराधितव्यम् सर्वे मिलित्वा पुनरेवं गगेन्द्र समारुकन् वैङ्कडाद्रिं गृह्णन्तः हरेर्नामान्यत्र पूर्वं गृह्णन्त त्वा श्रीनिवासस्य नाम द्रष्टुं सर्वे श्रीनिवासं तथैव कुर्वन्तस्ते तलशब्दं न दन्तः इति कृष्णव च श्रुत्वा पार्श्व्य कृष्णमुवाचः कथमास्वादनं चक्रुरेदद्विस्तीर्यमेवद श्रीकृष्ण उवाच भो श्रीनिवास तव नामैव चैदन्नाम स्वामीननु नामैव स्वामी या ब्रह्माद्या आश्रयन्तीति यस्मात्तस्माद्रमा श्रीरिति नाम चाप रमाश्र यत्त्वान् नितरां सर्वदा चेत्यतो हरिश्रीनिवासाभिधानः भो श्रीनिवासेदिदु न हृदयन्तो रोमाञ्चमात्रास्थलशब्दकारिणः अद्यैव पश्याम हरेस्तवास्यं कदावयं वयं कृतकृत्या भवामः भोगेशवाद्यैव पदारविन्दम् सन्दर्शयित्वा सुदयाम् कुरुष्व ब्रह्माणमाहुश्च पुराणमाहुः अशब्द वाक्यम् वाच्यम् सर्वलोकेशमाहुः ईश्यम् चार्षं रुद्रमित्येव चाहुस्तत्प्रेरकम् सृष्टिसंहारकार्ये अधो आनन्दवापीं संस्त्रवन्तोभि जग्मुर्नारायण नारायणेदिप्रवदन्तो हि जग्मुः अदो दोषास्तद्विरुद्धा गुणाश्च नाराश्च तेषामाश्रयत्वान्नुरारिः नारायणेदिप्रवदन्ति ह नारानु बन्धा सर्वमुखुदा फगेन्द्र नारा प्रोक्ता आश्रयत्वा च तेषामतोऽपि नारायण एववीन्द्र मुक्खुदाश्च ये तु प्रपदं नु तेन नाराखगेन्द्रतेषां सदाप्याश्रयत्वाच्च वीन्द्र नारायणेदि प्रवदन्ती हलोके ह्यनन्दब्रह्माण्डविसर्जकत्वात् एवम् न मृदु परिशंसयन्तो गोविन्दनान्योहिन चैव दर्शनम् गोशब्दवाच्यास्तु समस्तवाजो गोभिश्च सर्वैः प्रतिपाद्यते यदः अतो हि गोविन्द इति स्मृतः सदा भो वेद विद्यति तथा ननृतुः आनन्दबाष्पैश्च समन्विता हि हरेमुरारेदवदर्शनं हि देहि प्रभो वै तव दासदासाश्च दुर्दश्ये भुवने सर्वदापि यतस्त्वमेवं वसतीति वासुश्चात्रैव नित्यं क्रीडदे सर्वदैव यतो देवेत्येवमाहुर्महान्तस्त्वदो हरिं वासुदेवेति चाहुः भो वासुदेवेदि ननृतुस् सर्वदैव भो माधवेदि ननृतुश्चैव सर्वे लक्ष्मीपदे चेति वदन्ति सर्वे धनीधिशब्दस्वाभिवाची यतो हि अदोप्यार्या माधवेदि ब्रुवन्ति लक्ष्मीपदे पाहि तथैव भक्तान् ते वै ब्रुवन्दो ननृतुश्च जग्मुर्विष्णो सदास्मान् परिपाहि नित्यं सर्वत्र यस्माद्विदतोसि तस्मादित्यादिनामानि गृणन्त एव जग्मुश्च सर्वे ददृशुश्च तीर्थं भक्त्योपेदाशीनिवासं स्मरन्तः कन्योवाच किं नामकं तीर्थमिदं मुनीन्द्र किं कार्यमत्र प्रवदास्मान् कृदिश तस्मै प्रसन्नो भगवान् श्रीनिवासत्वस्मिन् सुदीर्घं वदविस्तरेण जैगीषव्य उवाच कन्ये शृणुत्वं ह्यभवत्सुबुद्धिमान् प्रसादसंज्ञो हरिवक्त्रवर्यः निष्कामबुद्ध्यादु यदा जगामशेषाचलस्तं श्रीनिवासं च द्रष्टुम् अस्मिन् स्थले दैत्यकुमारकान्प्रदि हरेश्च तत्त्वं प्रभुः नृसिंहरूपं श्रीनिवासं भजस्व सुदुर्लभम् मानुषं जन्मकन्ये तत्रापि विष्णोर्नृहरे सुतत्वं सुदुर्लभं सुष्ठु यात्रा तथैव यस्यां यात्रायां यत्र कुत्रापि देशे हरे कदावरुददे दैत्यवर्याः तत्र स्थले हरिरास्ते सदैव यदो व्याप्त सर्वतो वै नृसिंहः यदच्छ्रुत्वा दैत्यकुमारकास्ते प्रह्लादमूचुर्भक्तवर्यं हरेश्च व्याप्तो हरिश्चेत् कथमत्र वै सखे न दृश्यते जलरूपी नृसिंहः स एव मुक्तो दानवानां सुधैश्च तुष्टावविष्णुं परमादरेण तव स्वरूपं मम दर्शयस्व स्वयोग्यरूपं दानवानां सुदानां यदि स्तुदश्रीनिवासो हरिस्तु तस्मिन्नन्तर्जलरूपं समायाद अस्मिन् स्नानम् ये प्रकुर्वन्ति तीर्थे तेषाम् ज्ञानम् परमम् स्याद अत्र स्नाने मानुषाणाम् च तादबुद्धिर्न हि स्यात् कलिकाले विशेषाद दत्त्वाम् वरम् दैत्यवराय विष्णुरन्धर्दथे जलपूर्णे सुकुण्ठे अद्याप्यस्ते जलमध्ये दैत्यकुमारकैसह तस्मिन् सुतीर्थे परितस्तत्र तत्र जयति शब्दश्रूयते चाबराह्ने च कन्ये स्नानम् ह्यत्र स्नानं कृत्वा तत्र तीर्थे च सम्यग्दीपं दत्त्वा द्विजवर्याय मुख्यं द्रष्टुं पुनः श्रीनिवासं प्रजग्मुर्गोविन्दगोविन्द इति ब्रुवन्तः मुख्यप्राणाधिष्ठितं स्थानमाप्य अपाविंशत्तत्र देवी ह्युवज जैगीषव्यश्रीनिवासस्य विष्णो कथं कार्यं दर्श्यनं तद्वदस्व जैगीषव्यप्राहसंहृष्टचित्तो ब्रवीमि तन्द्रम् शृणु कन्यकेत्वम् श्रुत्वा मत्थक् कुरु सर्वं मयोक्तमाद्यं द्वारम् श्रीनिवासस्य दृष्ट्वा अपराधसहस्राणि क्रियन्ते हर्निशम् तानि सर्वाणि मे देवक्षमस्व पुरुषोत्तम मानसान्वाचिकान् दोषान् कायिकानपि सर्वशः वैष्णवद्वेष हेदून्मे भस्मः सात्कुरु माधव आद्यद्वारं श्रीनिवासस्य देवि सम्यक् स्मेरद्विजयं वै जयं दक्षाध्वरे श्रीनिवासस्य देवि चण्डं प्रचण्डं संस्मरेत् सम्यगेव पाश्चात्यभागे श्रीनिवासस्य देवि नन्दं सुनन्दं संस्मरेदेव भक्त्या सव्यद्वारे श्रीनिवासस्य कन्ये स्मरेत् कुमुदाक्षं कुमुदन्तमेव यश्चैव देहं प्रविशेद्भक्तिपूर्वं कदा द्रक्ष्ये सादरेणैव देवि प्रदक्षिणद्वादशकं च कृत्वा पदे पदे संस्मरेच्छीनिवासं श्रीस्वामितीर्थे सम्यगाजम्य नत्वा स्नात्वा नत्वा भूवराकं च देवि अयुद्वारं प्रविशेद्भक्तिपूर्वं गोविन्द गोविन्द यदि ब्रुवन् वै पश्चाद्धरेर्नमनम् कार्यमेव साष्टाङ्गरूपं प्रविश्येद्देवगेहं पुनर्विश्यद्वारतः संस्थितस् पीठस्तदेवान् मानसा चिन्तयित मध्ये पीठं श्रीनिवासं च देवीं नारायणं प्रणमेत् पूर्णमेव देवस्य सव्ये पीठभागाद्बहिश्च नमस्कार्यं गुरुदेवाय चैव पीठस्याग्रा चाप्यधस्तात्प्रदेशे आग्नेयकोणे प्रणमेद्वै खगेन्द्र नैऋत्यभागे व्यासदेवाय देवी नमस्कार्यो वैष्णवः सर्वदापि वायव्यकोणे भक्तिपूर्वं सुदर्गां नमस्कुर्याद्भक्ति संवर्धितात्मा पीडस्योर्ध्वं ह्यग्निकोणेषु देवी धर्माधिभूताय नमो यमाय पीडस्योर्ध्वं नैरृतस्योर्ध्वकोणे ज्ञानाधिपं प्रणमेद्वायुदेवं पीठस्योर्ध्वं वायुकोणे च सुभ्रूर्वैराग्यानामधिपं चैवरुद्रं पीठस्योर्ध्वं द्विषकोणे च देवी ऐश्वर्याणामधिपं चेन्द्रदेवं पीठस्य पूर्वे प्रणमे नैरृतिम् च हर्याह्मणानामधिपम् चात्र देवी देवस्य पीडस्य च दक्षिणे च नमे दुग्ररूपाभितां च पीडस्य कन्ये प्रणमे पश्चिमे वै आरोग्याणामधिपम् कामदेवम् देवस्य पीडस्योत्तरे रुद्रदेवमनैश्वर्याणामधिपं संस्मरे च पीठस्य मध्ये प्रणमे द्वैवरासं सदा कन्ये परमं पुरुषाख्यं चक्रि संज्ञां च लक्ष्मीमाधाररूपां प्रणमे चैव नित्यम् तस्योपरिष्ठाद्वायुकूर्मौ नमे च तस्योपरिष्ठाचेषकूर्मौ नमे च तस्योपरिष्ठादभिमानिनीं भुवो भू भु। देवतां प्रणमे चैव सुब्रूः तस्योपरिष्ठाद्वरुणं संस्मरे च क्षीरोदधेरधिपं चैव देवम् तस्योपरिष्टात् प्रणमे चैव लक्ष्मीं, श्वेदद्वीपाख्यम् कन्यके पूजये च तस्योपरिष्टात् प्रणमे चैव लक्ष्मीं महादिव्याम् मण्डपसञ्ज्ञकां च पीठस्य मध्ये यमसञ्ज्ञां च लक्ष्मीं समर्चयेद्यममध्ये च देवीम् यमस्य देवस्य च दक्षिणे च सूर्यं न मे दीपरूपं च भद्रे यमस्य देवस्य च वामभागे श्रियं नमे दीपरूपं च देवीं यमस्य देवस्य दुच्चाग्रभागे उदाशनं दीपरूपं न मे च देवस्याग्रे भूमिनाम्नी नमे च भूमिनाम तत्त्वाभिमाना संस्मरे चैव नित्यम् पर्यङ्करूपम् श्रीनिवासस्य विष्णोस्तमोऽभिमानाम् सन्नमेच्चैव दुर्गाम् पूर्वादिकम् पीठसोपानरूपमात्मानमेकम् प्रणमे च देवी दक्षस्तद्दिक्पीठसोपानरूपम् ज्ञानात्मकम् प्रणमे चैव कन्ये पद्मस्य पूर्वस्तदले च देवि स्त्रीरूपाख्यम् विमालाख्यामिमां च ब्रह्मादिदेवान् प्रणमे च देवीम् आज्ञेय कोणस्तदले शृणुत्वम् उत्कर्षनाम्नीम् परमां च देवीम् नमे मे द्रमा ब्रह्मवायू च शेषम् दक्षस्तपद्मस्य दलाष्टके च नारायणाकार शेषादिकानाम् स्त्रीरूपेभ्यो नमनं कार्यमेव कन्ये मया पश्चिमस्ते दले च गोपाख्यनारायणब्रह्मवायुविप्राधिकानाम् शेषरुद्रादिकानां स्त्रीरूपेभ्यो नमनं कार्यमेव ईशानकोणस्तदलेषु चैव ईशाननारायणमाविरिञ्जवायुर्वियश्चेषसुरादिकानां स्त्रीरूपेभ्यो नमनं कार्यमेव तथैव पद्मस्य च मध्यभागे अनुग्रहाख्या विष्णुलक्ष्मीश्च देवी वायोर्वियज्य रुद्रादिकानां स्त्रीरूपाणां नमनं कार्यमेव सुयोगपीठस्य स्वरूपभूतं सदा न मेच्छ्रीमदनन्दसंज्ञमेवं न मेच्छ्रीनिवासं च देवं श्रीनिवासस्य वा मेधुलक्ष्मीम् च प्रणमेद्वधूः श्रीनिवासस्य सव्येदु धारयै प्रणमेभे पीडाद्वहि पूर्वभागे कृपोल्कम् प्रणमेच्छुभम् महोल्कम् दक्षिणे चैव वीरोल्कम् पश्चिमे नमेद उत्तरे च नमः कुर्यादुल्पाय च महात्मने चतुर्ष्वपि च कोणेषु सहस्रोल्कम् न मे सुधीः पूर्वे दुवासुदेवाय नमस्कुर्याच्च दक्षिणे सङ्कर्षणाय देवाय प्रद्युम्नाय च पश्चिमे उत्तरे ह्यनिरुद्ध्या नमस्कुर्याददन्तदः दा आग्नेये च नमस्कुर्यात् कन्ये मायाम् सदाशुभे जयाय च नमस्कुन चाये कृत्य नमस्कुरिया शादी केशवाय नम पूर्वे तथा नारायणा माधवाय नमस्कुन चाभि वाय आन के निम भग्रिया प्रयदशुभे गोविंदय नमस्कुरया दक्षिणे विष्ण तथा मधुसूदनाय भोक नमस्कुया तो नैत पश्चिम त्रिविक्रमाय तथा विष्णव श्रीधराया नमस्कुरयाचमी उत्तरे दु महाकन्षिके तथा वै पदनाभाय नमस्कुंधि दामोदराय दा चे नमस्कुरिया भामिनी चतुर्धाणे पूर्वे महाकुर्माय वै नम वरा नमस्कुरिया कन्याकेशुे दक्षिणे नारिंहाय वमनाय नमो नम भागवाय नमस्कु नैत्ये शुद्धचेतसा पश्चिम कृष्णाय वै नम बुद्धा नमस्कुवाय कन्के शुभे उत्तरे क्युल्परूपाय अनन्ताय नमोऽस्तु ते ईशान्ये विश्वरूपाय नमस्फुर्याददन्तृतः आग्नेये वारुणीं चैव गायत्रीं चैव नैहृते वायव्ये भारतीं चैव ईशान्ये गिरिजां नमेद गिरिजां वामभागे दुसौपर्णै चैव संनमेद प्रागिन्द्राय नमस्कुर्या सायुधाय तथैव च सपरिग्रहाय श्रीविष्णो पार्षदाय नमो नमः आग्नेयेत्यग्नयेत्तुभ्यं तुभ्यं येदि पूर्ववद दक्षिणे दुयमायैव नैरृत्यां निर्वृतिं यजेत पश्चिमे वरुणायैव वायवे वायवे नमः उत्तरे च कुबेराय ईशान्ये च शिवाय च ईशानशक्रयोर्मध्ये ब्रह्मणे सायुधाय च निर्वृत्यप्यधिमध्ये दुशेषाय च नमो नमः एवं कृत्वा नमस्कारं प्रणमे च पुनः पुनः इत्येतत् सर्वमाख्यातं विधिपूर्वं तु दर्शनम् इतः परन्तु दर्शनार्थं भ्रमापते एवमुक्त्वा तु सा देवी तैः तु ययौ मुदा दर्शनस्य विधिक्फा कस्य चिह्नैव वक्तव्यो गोप्यत्वाच कदाचन समागमो दुर्कट एव वीन्द्र सदा च सत्तत्त्वविबोधपानाम् अनेकजन्मार्जितपुण्य सञ्चय दभूद्गुरो संगम एव तस्य पयोविकारं च निजं जहादि शेषस्य शेषं नलिनस्य शङ्कजम् नळिनस्य पङ्कजम् भावं चलं पङ्कजनाभयोगात् सत्सङ्गयोगादशुभानिनः स्युः इति श्रीगारूडे महापुराणे ब्रह्मकाण्डे श्रीवेङ्कटेशगिर्यारोहणक्रमतद्भक्ततत्पर्वतनामादिनिरूपणं नाम चतुर्विंशोऽध्यायः ओम् अध्यायं 25 साद्वारदेशे श्रीनिवासस्य देवी स्वामि पुष्करिणीं ददृश्येकैश्च सार्धम् स्वामिन्हरे श्रीनिवासेदि सातम् ब्रह्मादीनां तारकं सम्प्रदध्यौ देवैः सार्धं पालनार्थं च विष्णुरस्त्येव नित्यं पुष्करिण्यां जलेषु अधः स्वामि पुष्करिणीति चाहुस्तत्र स्नानं कन्यकान्याश्च चक्रुः शुचिर्भुक्त्वा श्रीनिवासम् च देवास्तुप्तुम् विविशुशुद्धभक् खगेन्द्र यथोपदिष्टम् गुरुणा तथैव चक्रे कन्याश्च सर्वम् खगेन्द्र तदाहरिम् दर्शयामास तस्यै स्वकम् रूपम् सुप्रतीके सुपूर्णं सा कन्यका श्रीनिवासस्य रूपं ददर्शभक््रिया स्वमनोभिरामम् सुवर्णचित्रं वसनं वसनं सोष्णीषकं कञ्चुकं सन्दधानं मृगोद्धमदगन्धेन सुरभिकृतदिङ्मुखम् पुण्डरीकविशालाक्षं कम्बुग्रीवं महाभुजम् हेमयज्ञोपवेदाङ्गं साक्षात्कन्दर्पसन्निभं जगन्मोहनसैन्दर्यं कोमलाङ्गं मनोहरम् दृष्ट्वा च कन्यामुदे रोमाञ्चितसुगात्रका तद्दर्शनाह्लादपरिप्लुताशया प्रेम्णादरोमाश्रुकुशला रोमाश्रुकुला कुलेक्षणा ननर्तदेवी न नर्तदेवी पुरतस्तस्य विष्णोः साध्वस्तदोषा परमादरेण आनन्द मां सुखं जगत्वा मुकुन्ता माहि माम्पाहि पाहि माम्पाहि मां नित्यम् ह्यरविन्दनेत्रप्रसन्नदृष्ट्या करुणासुधार्द्र गोविन्दगोविन्द सुदुःखिता माम् ज्ञानादिदानेन हि पाहि नित्यम् जनार्दनत्वं हि सुदुष्टसङ्गान् कामादिरूपान् सतदं वर्जयित्वा हरे हरे मां सततं पाहि दैत्यान् समाहृत्य प्रबलान् विघ्नरूपान् रमेश मां पाहि चतुर्मुखेश विश्वेश मां पाहि सरस्वतीश रमेश मां पाहि निधानमूर्ते वृन्तारवृन्दैर् वन्दितपादपद्मम् एवं तु नत्वा परमादरेण तुष्टावविष्णुं परमं पुराणं लक्ष्म्याः सदा ये विदिदा गुणाश्च असङ्ख्यादाः सन्धिविष्णौ च वीश तेषां सकाशादधि बाहुल्यसङ्ख्या गुणाहरौ ते विदिदा वैरमायाः अधो हरे स्तवने क्वास्ति शक्तिस्तथापि यत्नं स्तवने ते करिष्ये तव प्रसादा चरमप्रसादाद्विधिप्रसादात् भारतीशप्रसादाद रुद्रप्रसादास्तवनं ते करिष्ये तथापि विष्णो मयि शान्तिं गुरुष्व यदि प्रसन्नोऽसि मयि त्वमीश त्वत्पादमूले देहि भक्तिं सदैव त्वद्दर्शनाद्देवशुभाशुभं च नष्टं ह्यशुभं च नित्यम् त्वन्मायया नष्टमिमं च लोकं मदेन मत्तम्बधिरं चान्धभूतम् ऐश्वर्ययोगेन च योगि मूको जातः सदा दीनागुर्वादिकेषु मान्देहि ऐश्वर्यमनुत्तमं तत् पादारविन्दस्य विरुद्धभूतम् त्वं देव मे देहि सतां च सङ्गं तव स्वरूपप्रतिपादपानाम् पुत्रादीनामैहिकं कम्वासुदेवदग्ध्वा च मे देहि पादारविन्दे सद्वैष्णवे च कोपं चमे च मे देहि पादारविन्दे द्रव्यादिके क्रियमाणं च लोभं दग्ध्वा वै मे देहि पादाब्जमूले पुत्रादिके क्रियमाणं च मोहं दग्ध्वा च मे देहि पादाब्जमूले विद्यां पुत्रं द्रव्यजातं मदं च दग्ध्वा च मे देहि पादाब्जमूले सद्वैष्णवाः सहमानस्वरूपं दग्ध्वा मात्सर्यं पाहि मां वेङ्कटेश मन्त्रं च मे देहि निदानमूर्ते येनैव मे स्यात्तव सङ्कश्च भूयः नान्यम् वृणे तव पदाब्ज सङ्कात्तदेव मे देहि मम प्रसन्नः इतिवासप्रसन्न उवाच देवो ह्यमृतस्त्रवम् च अत्रैव कन्ये प्रजपस्वमन्त्रम् सुगोप्यरूपं परमादरेण वक्ष्यामिमन्त्रं परमादरेण शृण्वद्यभक्रिया परमादरेण अन्तस्थमन्द्यं ख्याद्य संयुक्तमेव स बिन्दु युक्तम् यकारयुक्तं प्रथमान्तस्थयुक्तं समत्रिकोणे चोष्मणा संयुतं च तकारसकृतं स्वर्षमन्तस्थयुक्तमद्यन्त ओङ्कारसमन्वितं च अनेन मन्द्रेण तवेप्सितं च भवेड्ढिकन्येनान्द्रविचार्यमस्ति एवं स उक्त्वा हरिस्तु हरिस्तुप्रदीगवद्दर्शयामासरूपं नत्वा मासरूपम् सा श्रीनिवासं च देवी उवासह स्वामिसरःसमीपे तस्मिन् दिने ब्राह्मणादींश्च सर्वान् सन्तर्पयामास च षड्रसान्नैः सायङ्काले श्रीनिवासस्य दृष्ट्वा उत्साहरूपैः श्रीनिवासप्रतीकैः सा कम्भक्रियासं प्रणम्याधदेवी प्रदक्षिणं श्रीनिवासस्य सुष्ठु ननर्त देवी सुप्रतीकस्य चाग्रे लज्जां त्यक्त्वा जय देवेति चोक्त्वा आनृत्तकाले च हरेश्च वक्त्रं दृष्ट्वा च दृष्ट्या तु परं ननर्त ममाद्यगात्रं पावितं श्रीनिवास ममाद्यनेत्रं सफलं सम्बभूव ममाद्यपादौ सार्धकौ चैवजादौ प्रदक्षिणं श्रीनिवासेशकृत्वा हस्तौ च मे सार्धकावद्यजादौ अग्रे कृत्वा हस्तशब्दं मुरारेः एवं वदन्ती प्रीणयन्ती जगामसास्तोत्रव जकदम्बैः देवास्तदा विनेदिरे तन्मस्तके पुष्पवृष्टिं च चक्रुः तस्मिन्काले उभयोः पार्श्वयोश्च नृत्यं चक्रुर्देवदावारनार्यः तथैव ता स्थलशब्दं च कृत्वा तदा सर्वा नमनं चापि चक्रुः आनन्दशैले सर्वदा त्विद्धमेव सा सर्वदा नर्दयन्ती जवीन्द्र आनन्दमग्ना सापि देवी जगामस्वमाश्रमं जैगिषव्येण सार्धम् यात्रामेवं येन कुर्वन्ति वीन्द्र तेषां च सर्वं निष्फलं चाहुरार्याः गत्वा श्रमं जैगिशव्येण सार्धं गुरुं त्वपृच्छद्वेङ्कटेशस्य मन्त्रं मन्त्रस्यार्धं ब्रूहि मे जैगिशैव्य मन्त्रावृत्तिं कुर्वतां वै फलाय जिगीष् उवाच शृणुष्वभद्रे वेङ्कटेशस्य नाम्नस्त्यर्थं नाम्नस्त्वर्थं श्रुत्वा हृदये संनिधत्स्व विधिह्युक्तमवाजि ककारसुखवाचि स्याट्टेति चित्तमुदाहृदम् ईषत्वमात्मवाचि स्यादेवं ज्ञेयं तु कन्यके पूर्णज्ञानं सुखं वित्तं व्याप्तत्वाद्व्यङ्गडादिभिः व्याप्तत्वाद्व्यङ्गडाभिदः व्यमिन्द्रायाधिकं प्रोक्तं व्यङ्गभूतं करौ यदः समुदायार्थो समुदायार्थो व्यङ्कडेश्चेन्द्रियौखकः स्वस्मिन् प्रेरयते यस्मात् व्यङ्कडनामकः विषये प्रेषयन्नित्यमदो व्यङ्गडनामकः विशिष्टज्ञानरूपत्वाद्वेदी मुक्ताः सदा स्मृताः मुक्तानां च समूहस्तु व्यङ्कडेधिप्रकीर्तितः सदा मुक्तः समूहानामीशत्वाद् व्यङ्कडाभिदः लिङ्गदेहमदो जीवो व्यङ्कडेदि समाहृदः लिङ्गानां चैव स्वामित्याद् व्यङ्कडेशेदि संज्ञः दैत्यानां च समूहस्तु ज्ञानादिविधुरा यतः अधो दैत्यसमूहस्तु व्यङ्कडेदि प्रकीर्तितः तेषां संहरणे ईशस्त्वदो व्यङ्कटनामकः आनन्दस्य विरुद्धत्वात् कामक्रोधादयो गुणाः व्यङ्कटा यदि सम्प्रोक्तास्तेषां नाशयिदा प्रभुः अतस्तु व्यङ्कटेशाख्य एवं ज्ञात्वा एवं व्यङ्कटामाहात्म्यां श्रुत्वा देवी खगेश्वर निद्रां चकार तत्रैव रात्रौ पित्रा सहैव च ब्राह्मे मुहूर्ते चोद्धयि हृदि सस्मार सस्मारकन्याका श्रीव्यङ्कटेशश्च नृसिंहमूर्तिश्रीवरदराजश्च वराहमूर्तिः श्रीरङ्गशायी च अनन्दशायी कुर्वन्तु सर्वे मम सुप्रभातम् श्रीकृष्णमूर्तिश्च गदाधरश्च श्रीविष्णुपादस्तु प्रयागवासः नारायणश्रीबदरीनिवास कुर्वन्तु सर्वे मम सुप्रभातम् दामोदरो वैत्रिजगन्निवासश्रीपाण्डुरङ्गश्च नृसिंहदेवः श्रीरामदेवश्च अमोघवासस्कृ श्रीधर्मपुत्रश्च श्री नृसिंहमूर्तिश्रीपिप्पलस्तश्च मुहुल्लवासः कोलानृसिंहशूर्पकारश्च सिंहकुर्वन्ददु सिंहकुर्वन्द्रु चतुर्मुखश्चारुसरस्वती स्वभारती शर्वसुवर्णशेषाः अमा महेन्द्रश्च शशी मुखास्ता कुर्वन् द्वारावी काशिका वन्दिका जप्रयागकाञ्जौ मधुरापुरी च मायावतीहस्तिमतीपुरी च कुर्वन्धुसदृ भगीरथी चैव सरस्वती च गोदावरी सिन्धुकृष्णे च वेणी कलिन्दकन्यायमुना च मुख्यमुना च नर्मदा कुर्वदृ वितस्तिकावेरीसदुङ्गभद्रा सुवञ्जरा भीमरधी विपाशा सुताम्रपर्णीजपिनागिनी च कृ स्वामी पुष्करिणी चैव सुवर्णमुखरी तथा श्रीपाण्डवी तौ भरुश्च कपिला पापनाशिनी गुरुर्वशिष्टक्रतुरङ्गिराश्च मनुपुलस्त्यपुलहश्च गौतमः रैभ्यो मरीचिश्च्यवनश्च दक्ष सर्वे मम सुप्रभातम् द्वीपाश्च सप्तो पवनानि सप्त भूरादिकानि भुवनानि सप्त कुर्वन्तु सदृ मान्धा न हुशौम्बरीषसगरौ राजानलो धर्मराड् प्रह्लादक्रदुराड्विभीषणगयौ व्यासो हनुमानभि अश्वद्दामकृपाुमा ध्रुपदजा श्रीजानगीतारक मन्दोदर्यखिला प्रभाद सुमसं कुर्वन्तु नित्यं हरे अश्वद्थस्य वनानि किं च तुलसीतात्रिवनानि प्रभो पुन्नागस्य वनानि चम्पकवनान्य पुष्पाणि ज मन्दारस्य वनानि यानि जहरे सौगन्धिकान्याप्यहो नित्यं तानि दिशन्तु मत्प्रमुदितं श्रीवङ्गणेशप्रभो एवं स्मृत्वा शीनिवासस्य देवी कृत्वा शौचं जैगिशव्येणसागं स्नातुं ययौ पुष्करिणीं हरेश्च सम्यक्तत्र चकारदेशे सम्यक् जक्त्वा व्यङ्कटेशस्य मन्त्रमुवाच सा जैगिषव्यं गुरुं च यदि श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे देवी कृतव्यङ्कटेशदर्शन तस्तुत्यादिवर्णनं नाम पञ्चविंशोऽध्यायः ओम्